अधषष्ठः सर्गः गते पुरोहिते रामस्नातो स्नातो नियतमानसः सह विशालाक्ष्या नारायणमुपागमत् प्रगृह्य शिरसा पात्रीम् हविशो महते दैवतायाज्यम् जुहा शेषम् च हविषस्तस्य ध्यायन्नारायणम् देवम् स्वास्तीर्णे कुशसंस्तरे वाग्यतः सः वैदेह्या भूत्वा नियतमानसः श्रीमत्यायतमे विष्णोः शिष्ये नरवरात्मजः एकयामावशिष्टायाम् रात्रियाम् प्रतिविबुध्यसः अलङ्कारविधिम् सम्यक् कारयामासवेश्मनः तत्र शृण्वन् सुखावाचः सूतमागधवन्दिना पूर्वाम् सन्ध्यामुपासीनो जपशुसमाहितः तुष्टावप्रणतश्चैव शिरसा मधुसूदनम् विमलक्षौमसंवीतो वाचयामास अयोध्याम् पूरयामासतूर्यघोषानुनादितः कृतोपवासम् तु तदा वैदेह्यासह राघवम् अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ततः पौरजनः सर्वश्रुत्वा रामाभिषेचनम् प्रभाताम् रजनीम् दृष्ट्वा चक्रे शोभयितुम् पुरीम् सिताभ्रशिखराभेषु देवतायतनेषु च चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च नानापण्यसमृद्धेषु वणिजामापणेषु च कुटुम्बिनाम् समृद्धेषु श्रीमत्सुभवनेषु च चा। सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च ध्वजाः समुच्छ्रिताः साधुपताराश्चाभवंस्तथा मनकर्णसुखावाच शुश्रावनता तत राषेकयुक्ताक्रुर्मो जनाषेके सु गृह बाहद्द्वारु सुक्ताक्रुरव कथाथतपुष्पोपूपगंधिवासी राजमार्गः कृतः श्रीमान् पौरैरामाभिषेचने प्रकाशकरणार्थम् च निशागमनशङ्कया दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः अलङ्कारम् पुरस्यैवम् कृत्वा तत्पुरवासिनः आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् समेत्य सङ्घः सर्वे चत्वरेषु सभासु च कथयन्तोऽमितस्तत्र प्रशशं सर्जनाधिपम् अहो महात्मा राजायमिक्ष्वा कुकुलनन्दनः ज्ञात्वा वृद्धम् स्वमात्मानं रामं राज्येऽभिषेक्ष्यति सर्वे ह्यनुगृहीता स्म रामो महीपतिः चिराय भविता गोप्ता दृष्टलोकपरावरः अनुद्धतमनाविद्वान् धर्मात्मा भ्रातृवत्सलः यथा च भ्रातृशस्निग्धस्तथा स्मास्वपि राघवः चिरम् जीवतु धर्मात्मा राजा दशरथोऽनघः यत्प्रसादेनाभिषिक्तम् रामम् द्रक्ष्यामहे वयम् एवम्विधम् कथयताम् पौराणाम् शुश्रुवुः परे दिग्भ्यो प्राप्ता जानपदा जनाः ते प्राप्ता द्रष्टुम् रामाभिषेचनम् रामस्य पूरयामासुः पुरीञ्जानपदा जनाः जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः पर्वसुदीर्णवेगस्य सागरस्यैव निःस्वनः ततस्तदिन्द्रक्षय सन्निभम् पुरम् दिदृक्षुभिर्जानपदैरुपाहितैः समन्ततः सस्वनमाकुलम् बभू इत्यादृशे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षष्ठः